त्रिचत्वारिंशः सर्गः देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिता कृत्वा वसुमतीम् रामवत्सरम् समुपासता अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः उमापतिः पशुपती राजानमिदमब्रवीत् प्रीतस्तेऽहम् नरश्रेष्ठ करिष्यामि तव शिरसाधारयिष्यामि शैलराजसुतामहम् ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता तदा सातिमहद्रूपम् कृत्वा वेगम् तस्यावलेपनम् ज्ञात्वा क्रुद्धस्तु भगवान्हरः तिरोभावयितुम् बुद्धिम् चक्रे त्रिणयनस्तदा सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनी हिमवत्प्रतिमे राम जटामण्डलगह्वरे सा कथञ्चिन्महीम् गन्तुम् नाशक्नोद्यत्नमास्थिता नैव सा निर्गमम् लेभे जटामण्डलमन्ततः तत्रैवाबभ्रमद्देवी संवत्सरगणान् बहून् तामपश्यत्पुनस्तत्र तपः परममा स्फिलः स तेन तोषितश्चासीदत्यन्तम् रघुनन्दना विससर्जततो गङ्गाम् हरो बिन्दुसरः प्रती तस्याम् विसृज्यमानायाम् सप्तस्रोताम्सि जज्ञिरे ह्लादिनीपावनीचैव नलिनी च तथैव च तिस्रः प्राचीम् दिशम् जग्मुर्गङ्गा शिवजलाः शुभाः सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी तिस्रश्चैता दिशम् जग्मुः प्रतीचीम् तु दिशम् शुभाः सप्तमीचान्वगात् तासाम् भगीरथरथम् तदा भगीरथोऽपि राजर्षिर्दिव्यम् स्यन्दनमास्थितः प्रायादग्रे महातेजा गङ्गा तम् चाप्यनुव्रजत् गगनाच्छङ्करशिरस्ततो धरणिमागता असर्पतजलं तत्र तीव्रशब्दपुरस्कृतम् मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा पतद्भ्यः पतितैश्चैव व्यरोचत वसुन्धरा ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा तत्र गगनाग्गाम् गताम् तदा विमानैर्नगराकारैर्हयैर्गजवरैस्तदा पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः तदद्भुतमिमम् लोके गङ्गावतरमुत्तमम् दिदृक्षवो देवगणाः समे युरमितौ जसः सम्पतद्भिः सुरगणैस्तेषाम् चाभरणौ जसा शतादित्यमिवाभाति गगनम् गततो पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा शारदाभ्रैर्वाकीर्णम् गगनम् हंससम्प्लवैः क्वचिद्रुततरम् याति कुटिलम् क्वचिदायतम् विनतम् क्वचिदुद्भूतम् क्वचिद्याति शनैः सलिलेनैव सलिलम् क्वचिदभ्याहतम् पुनः मुहुरोर्ध्वपथम् गत्वा पुनः तछंकर शिरो भ्रष्ट भ्रष्ट भूमितले पुनः यरोचत निर्मल गतकर्षिगणगंधर्वा वसुतवासीन भवाय पवित्रमित पस्पृशु शापत् प्रपतिता ये चगनासुत बभूवुर्गतकम भूतपापाः पुनस्तेन तोये येनाथशुभान्विताः पुनराकाशमाविष्य स्वान् लोकान् प्रतिपेदिरे मुमुदे लोकस्तेन तो येन लो लो ये भास्वता कृताभिषेको गङ्गायाम् बभूवगतकल्मषः भगीरथो हि राजर्षिर्दिव्यम् स्यन्दनमास्थितः प्रायादग्रे महाराजस्तम् गङ्गा पृष्ठतोऽन्वगात् देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः गन्धर्वयक्षप्रवराः सखिन्नरमहोरगाः सर्पाश्चाप्सरसो राम भगीरथरथानुगाः गङ्गामन्वगवन्प्रीताः सर्वे चलचराश्च ये यतो भगीरथो राजा ततो गङ्गायशस्विनी जगापसरिताम् श्रेष्ठा सर्वपापप्रणाशिनी ततो हे यजमानस्य जहनोरद्भुतकर्मणः गङ्गा सम्प्लावयामास यज्ञवाटम् महात्मनः तस्यावलेपनम् ज्ञात्वा क्रुद्धो जनश्च राघव अपि सर्वं जलम् सर्वम् परमाद्भुतम् ततो देवाः स गन्धर्वा सुविस्मिताः पूजयन्ति महात्मानम् जह्नम् पुरुषसत्तमम् गङ्गाम् चापि नयन्ति स्म दुहितृत्वे महात्मनः ततस्तुष्टो महातेजा श्रोत्राभ्यामसृजत्प्रभुः तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च जगाम पुनर्गङ्गा भगीरथरथानुगा सागरम् चापि सम्प्राप्ता सासरित्प्रवरा तदा रसातलमुपागच्छत्सिद्ध्यर्थम् तस्य कर्मणः भगेरथोऽपि राजर्षिर्गङ्गामादाययत् ततः पितामहान् भस्मकृतानपश्यद्गतचेतनः अथ तद्भस्मनाम् राशिम् गङ्गासलिलमुत्तमम् प्लावयद्भूतपाप्मानः स्वर्गम् प्राप्ता रघूत्तमा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः